मुद्गलपुराणं कण्ठं टु एकदन्तचरितम् अध्यायं ट्वेण्टि त्रि ध्रुवचरितम् श्रीगणेशाय नमः मुद्गल उवाच स्वायम्भुवमनोपुत्र उत्थानपादसंज्ञः सराज्यमध्यदेशस्य चक्रे चक्रेवै धर्मसंयुतः तस्य भार्ये प्रविख्यादे सुनीतिः सुरुचिस्तथा सुनीत्यां च ध्रुवो जज्ञे सुरुच्यामुत्तमस्ततः सुरुच्या, सुरुच्या स्ववशं नीतो तया राजा विमोहितः सुनीतिं मन्यते न स्म मनस्यापि प्रजापदे एकदा ध्रुवपुत्रश्चायया राज्ञः समीपकम् आरोढुमिच्छन्युत्सङ्गे संस्थितस्तस्य सन्निधौ तत्रावमानितस्तेन सुरुच्या दुष्टभावदः ततो ध्रुवो वनं दक्ष मार्गे वै गच्छतस्तस्य नारदो दृष्टिमागतः तं नना ममः बुद्धिर्बालोऽयं धर्मधारकः वृत्तान्तमखिलं ज्ञात्वा नारदेन महात्मना उपदिष्टो महामन्द्रो विष्णोश्च द्वादशाक्षरः नारदं सप्रणम्यादौ मधुरायां ययौ तदः तपश्चकारतत्रासौ ध्यायन्विष्णुम् सनातनम् सहस्रवर्षमत्यन्तं तताप परमं तपः प्रसन्नो भगवांस्तत्र तं ययौ भक्तिभावदः ददौ राज्यमखण्डं वै पृथिव्याः परमाद्भुतम् अन्धे स्वर्गस्य राज्यम् च पदं विष्णोर्ध्रुवात्मकम् तदस्वगृहमागत्य ननामपितरौ ध्रुवः तम् मासबहुलं तेजसायुतम् कालेन तम् ध्रुवम् राजा, राजा चकारस नराधिपः वनं ययौ महातेजास्तदाप परमं तपः तत्रागत्य जगानेशो नारदस्तमुवाचसः सः भेदाभेदादिहीनं त्वं गणेशं भज पार्थिव शिवविष्णवादयो देवा योगिनः शनकादयः वसिष्ठाद्या ऋषिगणा भजन्ते तं न संशयः न गणेशं विनाशान्तिर्लभ्यते नात्र संशयः स्वायम्भुवादिभूपालैः सेवितो गणनायकः एवमुक्त्वा गणेशस्य ददौ मन्त्रं षडक्षरम् राजा मन्त्रप्रभावेण गणपत्यो बभूवः मरणे गणनाथं वै सस्मारसनृपोत्तमः सायुज्यं गणनाथस्य प्राप्तं तस्य महात्मनः ध्रुवो राज्यं चकाराध धर्मयुक्तो महीपतिः जगाम सहसा तत्र नारदः करुणानिधिः तं दृष्ट्वा प्रणनामासौ पूजयामास भक्तितः स्वगुरुं पूर्णभावेन कृताञ्जलिपुटस्थितः तमुवाच महायोगी नारदो दिव्यदर्शनः स्वशिष्यं भक्तिसंयुक्तं दययाच दयानिधिः नारद उवाच शृणुध्रुवचोरम्यं विकुण्ठादागदोऽधुना विष्णुना प्रषितोऽहं वै तव हेतोर्महामदे मयूरेशस्य यत्क्षेत्रं भुवि परं तत्रागत्वा महायात्रां कुरु त्वं तेनाक्षयपदं ते वै भविष्यति अन्यधा अन्यथा विघ्नसंयुक्तपदिष्यसि न संशयः अन्यच्च कथितं तेन विष्णुना करुणावदा यकाक्षरं गणेशस्य महामन्त्रं जपेदि तेन मन्त्रप्रभावेण लये ब्रह्मदिनात्यये लयं ध्रुवपदं गच्छेत् तदा त्वं शान्तिमेष्यसि ब्रह्मणि ब्रह्मभूतश्च भविष्यसि न संशयः अन्यथा योगशान्तिं त्वं न प्राप्स्यसि कदाचन ततस्थं नारदो योगी ददौ मन्त्रं विधानदः एकाक्षरं गणेशस्य राजा सिद्धो बभूव सः मयूरेशस्य वै क्षेत्रे ध्रुवः सद्यः समागतः चकारविधिवद्यात्रां द्वाराणां चिह्नसंयुधां गणेशं स्थापयामास्राह्मणैर्मन्द्रकोविधैः अर्धक्रोशे गणेशात्मापूर्वद्वारसमीपकं देवालयं चकारासौ महामौल्यं सुविस्तृतं सुवर्णशिखरं रम्यं पूजितं वै सुभकृतः नाम तस्याकरोद्राजा तदा ध्रुवविनायकः वर्षमासं निवासं च ध्रुवस्तत्र चकारः नगरे गत्वा राज्यं चक्रे महाबलः जगामस्वर्गमन्दे सध्रुवाक्यं ज्योतिषां धरम् तस्मिन् गणपतिं ध्यायन् संस्थितोसौ महायशाः ध्रुवस्थानस्य नाश्यें ते गदस्वानन्दमञ्जस ध्रुवं विनायकम् दृष्ट्वा भुक्तिं मुक्तिं सुनिश्चलां लभते मानवस्तत्र श्रुत्वा द्रव्यमिदं तथा ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्दले महापुराणे द्वितीये खण्डे एकदन्तचरिते ध्रुवचरितं नामत्र यो ओ oh.